मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं सिक्स्टीन् वृषभचरित्रवर्णनं श्रीगणेशाय नमः मुद्गल उवाच प्रियव्रतात्मजश्चैवाग्निध्रस्तस्याभवत्सुधः नाभिस्तस्य च यज्ञाद्वयि समुत्पन्नः सुतः परः यज्ञरूपस्वयं विष्णुकलारूपेण देखभृतपुत्रभावसमयुक्तस्थितस्तस्य च सद्मनि तस्य पुत्रशतं ज्ञे भरदाग्रं प्रजापदे एकाशीतिश्च पुत्रा वै ब्राह्मणास्तपसा भवन् नवयोगिन एवान्ये भवन् सर्वत्र सम्मताः गाणपत्या महाभागाः सर्वदेहविवर्जिताः कविर्हरिश्चान्दरिक्षप्रबुद्धपिपलायनः आविर्होत्रो द्रुमिलश्चमसकरभाजनः सदा योगधरामुख्या ऊर्ध्वरेतस एव च सर्वगास्सर्वसम्मान्या भ्रमन्ति भुवनेषु च नवतत्र च राजानो जम्भुद्वीपे प्रजापते खण्डेषु तेषु मुख्यो वै भरतो ज्येष्ठपुत्रकः सभ्रातॄणां नवानां वै सम्राट्भावेन संस्थितः एवं विभज्यराज्यं स्वमृषभश्च वनं ययौ तत्र नानातपः कृत्वा क्रमेण स बभूवच अवधूतो महाभागो योगमभ्यस्य योगविदनायोगविभेदेन नानाभूमिं विशोधयन् जडोन्मत्तपिशाचादिम् तदत्सहज संस्थितः सहजम् शङ्करम् ब्रह्ममोहीनम् च दुर्थकम् स्वाधीनम् नेदिरूपम् यदव्यक्तम् तेन संश्रितं तेनासौ तेना शाम्भवो जातः शिवमार्गप्रकाशकः यत्र तत्राचरद्योगी जनानाम् बोधयन् शिवम् तदो योगेन तत्रैव स्वाधीनब्रह्मदूषणं दृष्ट्वा शान्तिं परित्यज्य विस्मितः प्रभभूवसः न ब्रह्मणि पराधीनस्वाधीनत्वं कदाचन शिवस्वाधीनरूपोऽयं न योगीन्द्रस्ततो भवद एवं विचार्य विक्षोपाश्चङ्करालय तं प्रणम्य स्थितो योगी शिव समानिदो भृशं तत्र महाभागा योगिनशिवशिक्षकाः गाणपत्या मानसे भवद तदोऽवसरमासाद्य शिवं नत्वा कृताञ्जलिः जगाद तं स योगीन्द्रो भक्तियुक्तेन वृषभ उवाच नमस्ते शङ्करायैव नमस्ते योगरूपिणे नमस्ते जगदाधारब्रह्माधिपदये नमः शान्तियोगं वद स्वामिन् पूर्णशान्तिप्रदायकं दासोऽहं तेऽधुना शिष्यो मह्यं देव दयानिधे दे, सखजान्नपरं ब्रह्ममया ज्ञातं विवेकतः तत्र स्वाधीनदाधिष्ठा तया शान्तिर्गदाच मे मुद्गल उवाच ऋषभस्य वच श्रुत्वा शङ्करो हर्षनिर्भरः जगादतमहाभक्तं पूर्णपाशुपदं वचः शिव उवाच त्वया पृष्टमहायोगीं स्तारकं योगिनां मदम् कथयामि महाप्रीत्या शृणुष्वैकाग्रमानसः शान्तियोगात्मकः साक्षाद्वेदेषु कथितः गणेशो योगरूपाख्यो योगिभिः सेवितः सदा तस्मात् सर्वं समुद्भूतं तदा अन्ते चेदं तदाकारं योगेन भवदिप्रभो सामवेदे प्रकथितं शृणु वेदरहस्यकं यनत्वं त्वं शान्तिसंयुक्तो भविष्यसि न संशयः मनोवाणीमयं सर्वं दृश्यादृश्यस्वरूपकं गकारात्मकमेदत्तु तत्र ब्रह्म गकारकः मनोवाणीविहीनं च स योगयोगसंस्थितं नकारात्मकमेधत्तु नकारस्तत्र विविधानि गकाराच्च प्रसूतानि महामदे ब्रह्माणि तानि गध्यन्ते तत्त्वरूपाणि योगिभिः ब्रह्माणि तु णकारा च सम्प्रसूतानि योगिभिः निरोधात्मकरूपाणि कथितानि समन्तदः ककारश्च णकारश्चाह्ये गणपते स्थितौ ततो जानीहि भो योगिन् ब्रह्माकारौ श्रुतेर्मुखाद तयोस्वामी गणेशानो योगरूपेण संस्थितः तं भजस्वभिधानेन शान्तिमार्गेण पुत्रक मनोवाणीमयं सर्वं गणेशाकारभाविधं मनोवाणीविहीनं च तदाकारं प्रभावय मनोवाणीमयं सर्वं मायारूपं प्रकथ्यते मनोवाणी विहीनं यत्तदेव तादृशं मदं चित्तस्य पञ्चभूमीनां प्रकाश्य कृदयं स्मृतः तेन चिन्तां मणिर्नामजातोसौ गणनायकः तम्भजस्वमहायोगिन् योगाकारेण संस्थितः भूमीनां त्यागमार्गेण शान्तिं चित्तस्य चाप्स्यसि गणेशस्तु गणेशोऽयं संयोगा योगवर्जितः मायया भ्रान्तिरुत्पन्ना तां त्यक्वा सुखमाप्स्यसि इत्युक्त्वा ऋषभोऽपि प्रसन्नात्मा तं प्रणम्य ययौवनं कथितं शङ्करेणैवमभ्यस्यन् योगमुत्तमं क्रमेण पूर्वयोगी जादो शान्तिस्वरूपधृक तथापि गणपं दक्ष नमु मोचक्षणं मुनिः तेन तस्य समीपे सौ गणेशानः समाययौ आगतं गणपं दृष्ट्वा भक्तिभावेन यन्त्रितं प्रणनामससाष्टाङ्गं हर्षगद्गदभाषणः सरोमाञ्च शरीरश्च साश्रुनेत्रो महायशाः तुष्टावतं गणाधीशं प्राञ्जलिर्हृष्टमानसः वृषभ उवाच नमस्ते ब्रह्मरूपाय गणेशकरुणानिधे भेदाभेदादिहीनाय गणानां पदये नमः निराकाराय नित्याय जगदाकारमुहूर्तये अनन्दाय परेशाय परा ते आदिमध्यान्तहीनाय गुणाकाराय ते नमः गुणेशाय जगत्स्रष्ट्रे पालकाय हराय च नमो नानावताराय भक्तपालनभेदवे सुरासुरमयायैव सुरासुरसुपूजित सुरा सुरा योगाय योगधात्रे च योगाकाराय ते नमः योगानां पदये तुभ्यम् ब्रह्मणां पदये नमः सर्वादये गणाध्यक्ष सर्वपूज्यायढुण्ठये सर्वान्दे ह्यवशिष्ठाय विघ्नेशाय नमो नमः हेरम्भाय निजानन्दवासिने सिद्धसेवितसिद्धिबुद्धिपदे तुभ्यं नाना हेलकराय ते धर्मार्थकाममोक्षाणां दायकाय नमो नमः ब्रह्मीभूतकरायैव ब्रह्मभूतमयाय च किं स्तौमि त्वां गणाधीशयोगशान्तिमयं प्रभो यं स्तोदुम्नसमर्थाश्च वेदाद्याशिवमुख्यथाः तथापि च यथा बुद्धिज्ञानं त्वं संस्तुतो मया भक्तिं देहि त्वदीयं मे दृढामव्यभिचारिणीं मुद्गल उवाच इत्युक्त्वा निपपादौर्व्यां पदं धृत्वा महायशाः गणेशस्य च समुद्धापिद आदराद जगादगणनाथः सृषभं भक्तमुत्तमम् शिवशिष्यम् शिवप्रज्ञम् साक्षाद्विष्णुम् सनातनम् गणेश उवाच मदीया भक्तिरत्यन्तम् भविष्यत्यचलानख स्तोत्रम् त्वया कृतं मे दुषान्दिदम् प्रभविष्यति यं यमिच्छति तं तं वै दास्यामि स्तोत्र पाठतः श्रवणान्नात्र सन्देहो भावपूर्णं मदं देवो गणेशो गणवल्लभः ऋषभश्च सदा योगी गाणेशदां गदः इदम् चरित्रम् मुख्यं वै यशृणोति नरोत्तमः ऋषभस्य महापुण्यम् पठेद्वा तस्य सर्वदम् भविष्यदिनसन्देहो ब्रह्म भूयप्रदायकं शान्दिदम् शान्तचित्तेभ्यः कथितं भक्तिसंयुदम् ॐ तत्सदिति श्रीमदान्ध्ये श्रीमन मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिते ऋषभचरित्रवर्णनं नाम षोडशोऽध्यायः ओम्